श्रीमद्भागवतमहापुराणं दशमस्कन्धम् अथ पञ्चसप्ततितमोऽध्यायः राजसूयज्ञकी पूर्ति दुर्योधन का अपमान राजवाच अजातशत्रोस्तं दृष्ट्वा राजसूयमहोदयं सर्वे मुमुमिरे ब्रह्मण्डदेवाय समागताः दुर्योधनं वर्जित्वा राजान इति श्रुतं नो भगवन्तत्र कारणमुच्यताम् ऋषिरुवाच पितामहस्य ते यज्ञे राजसूये महात्मनः बान्धवापरिचर्यायां तस्यासान् प्रेमबन्धनाः भीमो महानसाध्यक्षो धनाध्यक्ष सुयोधनः सह देवस्तु पूजायां नकुलो द्रव्यसाधने गुरुशुश्रूषणे जिष्णु कृष्णपादावने जनये परिवेषणे द्रुपदजाकरणो दाने महामना योधानो विकर्णश्च हार्दिक्यो विदुरादयः बालिकपुत्रा भुर्याध्याये च सन्तर्दनादयः निरूपितामहायज्ञे नानाकर्मसुते तदा प्रवर्तन्ते स्वराजेन्द्रराज्ञ प्रेचकेशवः ऋत्वे सक्सतस्य बहुविस्तु सृहत्तमेषु सु। हृष्टेषु सु सुनितं समहर्षणदक्षिणाभि चैद्ये च सात्वत्पतेः शरणं प्रविष्टे चक्रुतस्वं त्वभ्रीथस्नपनं जुनद्याम मृदङ्गशङ्खप्रणवधुन्धुर्यानकगोमुखाः वादित्राणि विचित्राणि नेदुरावृतोत्सवे नर्तक्यो न ऋतुसृष्टां गायका भूयूथसो जगुः वीरावेरुतलोन्नादस्तेषां सदिवमस्प सद चित्रध्वज पताकाग्रहैर्भेन्द्रस्य यदुसिञ्जयकाम्बोजकुरुके के कोशलाह। कम्पयन्तो भुवं सैन्यैर् यजमानपुरशराः सदस्य त्वे द्विग्द्विजश्रेष्ठा ब्रह्मघोषेण भूयसा देवर्षि पितृगन्धर्वा तुष्टो पुणपुष्पवर्षिणः स्वलङ्कृता नरा नार्यो गन्धस्रग्भूषणाम्बरैः दिलीपन्तोऽभिषिञ्चन्त्यो बिजह्रूविविधैरसै तैलगूरसगन्धोदहरिन्द्रासान्द्रकुङ्कुमैः त्वम्भिर्लिप्ताः प्रलिपन्त्यो बिजह्रूवारि योषितः गुप्तानभिर्निर्गमननुपलब्धं धुमेतद् देव्यो यथा दिविमानवरे निदेव्यः ता मातुलेयशिभिः परिसेच्यमानाः सा वीरहासविकसन् वदनाविरेजुः ता देवरानुतसखेन शिसेचुरन्द्रुतिभिः क्लिन्नाम्बराभृवितङ्गात्रकुचोरमध्याः असौक्यमुक्तकबराचममानमाल्याः क्षोभं दधुर्मलधियामृचिरैर्विहारै ससम्राटनन्दसमारूढ सदस्वं रुक्ममालिनं व्यरोच स्वपत्नीभिः क्रियाभिः कृतुरारिव पत्नीसय्याज्यावभृत्यै चलित्वा ते तमृत्विजः आचान्तं स्नां प्रियांश्चक्रुर्गर्गायां स गुरुकृष्णयां देवदुन्दुभयो ने दुर्नन्दुभि समम् मुचो पुष्पवर्षाणि देवर्षि पितृमानवाः सस्नुस्तत्र तुत सर्वे वर्णाश्रमयुता नराः महापातक्यपि यत् सद्योमुच्चेत किल्विषात् अथ राजां हते क्षौमे परिधाय शुलङ्कृतः नित्ये सदस्य विप्रादि नानर्चाभरणाम्बरैहम् बन्धो ज्ञाते नृपान्मित्रसृदोन्यास्ति सर्वशः अभीक्ष्णं पूजयामास परो नृपः